राधा राधा भगिनी नमस्कारः प्रार्थनां वदति वा आं भगिनि नमस्कारः नमस्कारः नमस्ते भगिनी नमस्ते स्वागतम् सरस्वती नमस्तुभ्यं वरदेकामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मयि सदा नमो नमः सर्वेषां स्वागतम् अद्य अस्माभिः यत् तत् यद्यपि तथापि तत तत् अवशिष्टः भागः तत कृत्य किञ्चित् अध्ययनं कुर्मः अनन्तरं शब्दानि सन्ति तत्र केचन वाक्यानि सन्ति अनन्तरं शब्दाः अपि तत् तस्य अपि अध्ययनं वयं कुर्मः सन्ति वाक्यानि सन्ति कुर्मः एकमेकम् एकनिमिषं शेर् करोमि गतवर्गे वयं यः सः या सा विषयस्य अध्ययनं कृतवन्तः अद्यदिने अवशिष्टभागस्य यत् तत् तत् पश्यामः यद्यपि तथापि तत् यत् तत् वयं पठितवन्तः यद्यपि तथापि अस्तु पुनः एकवारं वयं पठामः तत् ओगस्ट् भवान् आरम्भं करोति वा यत् तत् रां भगिनि अवगच्छत च भारते यात् संस्कृतज्ञानम् अस्ति तत् अन्यात्र नास्ति चन्द चन्दनस्य काष्ठे गन्धस्य माधुर्यं यात् अस्ति तत् अन्यात्र न अस्ति काष्ठे इत्युक्ते सेण्डिड्वूड् सेण्डलवुड् इति अस्ति चन्दनम् इति भारते यात् वास्तुशिल् अस्ति तत् अन्यत्र न अस्ति वास्तुशिल्पम् इत्युक्ते uh तत् -huh. आर्किटेक्चर् uh इति -huh. वक्तुं okay. शक्नुमः भारते यत् अस्तम उत्तरभार शैत्यं अस्िणार नस्तर उत्तरभारत प्रदेश तक शैत्यं अस्ट दक्षिण भारत त्रावरभारून शैत्यमस्तीक्य आशयनम यद्यक पटो महोदय यद्य पठत अवगच्छत च आलसाः दृष्टकायाः दृढकायाः दृढकायाः दृढ आलसाः दृढकायाः ते कार्यं न कुर्वन्ति यदपि आलसाः दृढकायाः तथापि ते कार्यं अत्र यद्यपि इति अस्ति तथापि तत्र इट्स् सौन्स् लैक् इवन् दो देन् आसो इति तेषु आलस्यम् अधिकतया वर्तते आलस्यम् इतिकायाः इत्युक्ते तेषां काया अधिकतया भासते इत्युक्ते हेवि वेय्ट् इति वक्तुं शक्नुमा? हा यद्यपि तेषां समीपे सामर्थ्यमस्ति तथापि ते कार्यं न कुर्वन्ति यद्यपि ते दृढकायाः तथापि ते कार्यं न कुर्वन्ति किमपि कार्यं न कुर्वन्ति ते कर्तुं शक्नुवन्ति परन्तु न कुर्वन्ति इति आशयः अहं योग अहं योगासनं करोमि मम तृप्तिः नास्ति यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति सा प्रश्नान् पृच्छति सा न अवगच्छति hmm. यद्यपि यद्यपि सा प्रश्नं पृच्छति तथापि सा hmm. न अवगच्छति अवगच्छति अवगमनं न भवति प्रश्नान्तु पृच्छति परन्तु अवगमनं न भवति तस्याः इति आश्रयः वृष्टिः सम्यक् आसीत् कृषकः सन्तुष्टः नास्ति यद्यपि वृक्षः सम्यक् नासीत् तथापि कृषकः सन्तुष्टः नास्ति हा तत्र समस्या अधिकतया सन्ति यथापि यद्यपि वृष्टिः सम्यक् दृष्ट्या अभवत् तर्हि कृषकः सन्तुष्टः नास्ति इति यद्यपि वृष्टिः सम्यक् तथापि कृषकः असन्तुष्टः सन्तुष्टः नास्ति कृषकः असन्तुष्टः अस्ति इति छात्राः नियमं जनन्ति जानन्ति छात्राः जा, नियमं जानन्ति ते उल्लङ्घनम् कुर्वन्ति hmm. यादि अपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं hmm. कुर्वन्ति hmm. अत्र जानन्ति छात्राः जानन्ति छात्रः जानाति जानाति एकवचनान्तरूपं जानन्ति बहुवचनान्तरूपं छात्रः छात्र जानती हा उल्लम अस्थित उपसर्गल उल्लम मर्यादाभंगम मर्याद उल्लघन कुरानी ते नियमं पालनं न नियम जानती पर पालन न कम पालन अशासस न पालय नियमपालनं न कुर्वन्ति ते इति अस्ति हा अस्तु धन्यवाद महोदय धन्यवादः भगिनि अग्रिमे रमणी भगिनी पठति आ आं भगिनि यत् तत् उपयुज्य वाक्यानि लिखतु भवती यद् वदति तद् अहं न जानामि पञ्चवाक्यानि वदतु यत् तत् उपयुज्य मगिनि हा परिश्रमं करो परिश्रमं करोमि हा मम पुत्रः यद् वदति तद् अहं करोमि मम मम पुत्री यत् वदति तत् तदेव तद् अहं करोमि एतदेव अहं जानामि तत्र प्रथमं वाक्यं यत् अस्ति तत् अदृष्ट्वा वदतु भवती भिन्नप्रकारेण चिन्तनं करोतु तदा एव सम्यक् भवति यत् तत् सेवकः यत् वदति तत् अहं न न करोमि अस्तु से, सेवकः यद्वदति देवालये पूजारी यद्वदति तद् अहम् अहं करो तद् अहं करोमि नुपालयामि इति अनुपालयामि यत् गुरुः वदति तत् अहं यत् गुरुः वदति तत् शिष्याः अनुवदन्ति इति एवमपि यद्गुरुः गुरुः पठनं कारयति खलु यद्गुरुः वदति तत् शिष्याः अनुवदन्ति एवं यत् यत् यत् पुत्रः वदति तद् पिता न करोति अस्तु यत् यत् पुत्रः वदति तद् पिता न करोति हा अस्तु अस्तु सम्यक् अस्ति सम्यक् उक्तवती परन्तु चिन्तने कथं भवति अस्तु यत् यत् मम मातुः समीपे पाककौशल्यम् आसीत् तत् मम समीपे नास्ति इति प्रकारेण तावदेव भिन्नभिन्नप्रकारेण यदा वयं चिन्तनं कुर्मः तद् वाक्ययोजना सुलभतया भवति परन्तु उत्तमः प्रयासः भगिनी उत्तमः प्रयासः धन्यवादः भगिनी धन्यवादः भारतमहोदय अग्रिमो पठति वा आं भगिनि द्वे वाक्ये लिखते स्तः ते मिलित्वा एकं वाक्यं लिखतु यथा अद्य विरामः अस्ति अहं कार्यालयं गच्छामि यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि यद्यपि अद्य विरामः तथापि अहं कार्यालयं गच्छामि अधिकतया कार्यं कर्तुम् इच्छामि अतः गच्छामि इति अर्जेण्ट् वर्क् इति वक्तुं शक्नुमः यद्यपि अद्य विरामः तथापि अहं गच्छामि एव <laughs> इदानीं वाक्यरचना तत्र द्वे वाक्ये स्तः सा बुद्धिमती परीक्षायाम् अनुत्तीर्णा अत्रापि अस्माभिः योजना करणीया कस्य यद्यपि तथा वदतु सा बुद्धिमती परीक्षायाम् अनुत्तीर्णा अनुत्तीर्णा अनुत्तीर्णा यद्यपि सा बुद्धिमति अस्ति तथापि परीक्षायाम् अनुतीर्णा योग्यमस्ति महोदय अग्रिमं पूर्वम् असन्तुष्टः आसीत् इदानीं सन्तुष्टः जातः यद्यपि सः पूर्वम् अस् असन्तुष्टः आसीत् mm -hmm. तथापि इदानीं सन्तुष्टः जातः सम्यक् योग्यं धनम् अस्ति सः दानं न करोति mm. यद्यपि नम् अस्ति तथापि सः दानं न करोति सम्यक् उत्तमं महोदय अग्रिमे ग्रन्थालयः अस्ति सः पुस्तकं न स्वीकरोति यद्यपि ग्रन्थालयः अस्ति तथापि सः पुस्तकं न स्वीकरोति योग्यमेव यद् भवान् उक्तवान् तद्योग्यमेव परन्तु इतोपि भिन्नप्रकारेण चिन्तनं कथं भवेत् अत्र ग्रन्थालयः अस्ति इति एकं वाक्यम् अनन्तरं सः पुस्तकं न इति द्वितीयं वाक्यं तत् कथं यद्यपि तस्य गृहस्य समीपे ग्रन्थालयः अस्ति तथापि सः पुस्तकं न स्वीकरोति यु केन् फ्यू मोर् वर्ड्स् एण्ड् मेक् युर् ओन् सेण्टेन्स् लैक् देट् अग्रिममपि करोतु बुभुक्षा अस्ति सा न खा खादति यद्यपि बुभुक्षा अस्ति तथापि सा न खादति यद्यपि तस्याः भोजनस्य बुभुक्षा अस्ति तथापि सा किमपि खादति इति okay. अहं बुभुक्षुभुक्षा mm -hmm. अस्ति तथापि अहं न खादति खादामि हा अत्र यद्यपि अहं बुभुक्षु अस्मि वा यद्यपि मया यद्यपि मम बुभुक्षा अस्ति इति वा बुभुक्षु इति अस्ति बुभुक्षुः बुभुक्षु इत्युक्ते बुभुक्षु तत्र कर्तुपदं तत्र बुभुक्षु अहमेकवारम् उक्तवती तत् सनादिप्रत्यये आगच्छति द्वित्वं दृश्यते तत्र बभु इति बुभुक्षु अहं बुभुक्षु बुभुक्षा अनुभवामि बुभुक्षाम् अनुभवामि यद्यपि मुभुक्षा अस्सी तथा अहम न खाने नोचे त्रेट वक्य संवी योजन बुभुक्षा अभवाद यद्य अं भोजन से बुभुक्षा अभवामी तथा अन्य किमपि न खादामि इति भोजनम् एव तत एव खादामि अन्य कोऽपि अन्य आनी वस्तूनि न स्वीकरोमि इति भोजनम् एव एव, अग्रिमं करोतु विद्युत् विद्युत् नास्ति सा गृ गृहपाठं लिखति यद्यपि विद्युत् नास्ति mm. तथापि सा mm. गृहपाठं लिखति यद्यपि विद्युत् नास्ति तथापि सा गृहपाठं mm. लिखति uh, आरोग्यं सम्यक् नास्ति सा mm. चिकित्सालयं न गच्छति mm. यद्यपि यद्यपि आरोग्यं सम्यक् नास्ति तथापि तथापि hmm. सा चिकित्सालयं न गच्छति hmm. यानस्य समयः अस्ति यानं hmm. न आग आगतम् hmm. यद्यपि यानस्य समयः अस्ति तथापि यानम न आगतम। hmm. रामः श्लोकं वारं वारं, वारं पठति विस्मरति hmm. यद्यपि रामः श्लोकं वारं वारं, वारं पठति hmm. तथापि विस्मर तथापि विस्मरति तथापि विस्मरति तथापि न स्मरति तथापि वर्गे न स्मरति वर्गे विस्मरति यदा शिक्षिका पृच्छति तदा सः विस्मरति परन्तु गृहे तु वारं पठति तद् भवति अग्रिमं पठतुः अस्ति सा उद्यानं गच्छति hmm. यद्यपि वृष्टिः अस्ति hmm? तथापि सा उद्यान उद्यानं गच्छति यद्यपि तत्र वृष्टिः अस्ति तथापि सा उद्यानं गच्छति इति अस्तु सम्यक् धन्यवादः उत्तममस्ति द्वितीयं करपत्रमपि वयम् तत् अस्माकम् अन्तिमं करपत्रमस्ति प्रथमविभागे कुटुम्बसम्बन् पदानि रिलेशन्शिप् इति तत् वयं अथम राधां भगिनी अटं करोति वा आं पदानि महादेवः पितामहः पार्वती पितामही रामदेवः मातामहः जानकी मातामही माधव माधवः पिता मावती माता अत्र कथमस्ति माधवस्य पिता महादेवः माधवस्य माता पार्वती माधवस्य माता पार्वती, मालत्याः पिता रामदेवः माता जानकी पिता, पिता, तत अग्रिमे अत्र दृश्यते माधव रोहनस्य पिता गीता अग्रजा मोहनः अग्रजः रोहनः अहं मालिनी अनुजा राजेशः अनुजः अग्रजः अनुजः कः भेदः अग्रज अग्रजः अनुजः यंगर ब्रदर. यङ्गर् ब्रदर् सम्यक् तत्र अग्रजा गीता अग्रजः मोहनः मालिनी अनुजा राजेशः अनुजः इदानीं hmm. वदतु hmm. पाण्डवेषु कः अग्रजः कह अनुजः पाण्डवेषु युधिष्ठिरः अग्रजः hmm. भीमः अग्रजः अर्जुनः hmm. नकुलसहदेवः अनुजः तत्र इत्युक्ते नकुलसहदेवः अनुजः अनन्तरम् अग्रजः अग्रजः अर्जुनः अर्जुनस्य अग्रजः भीमः भीमस्य अग्रजः युरिष् एवम् इदानीं पठतु अहम् अहं रोहनः माधवः मम पिता मालती मम माता अहं माधवस्य मालत्याः च पुत्रः अहं मालिन्याः अग्रजः मालिनी मम अनुजा राजेशः मम अनुजः अहं गीतायाः मोहनस्य च अनुजः मोहनः मम अग्रजः गीता मम अग्रजा महादेवः मम पितामहः पार्वती मम पितामही अहं महादेवस्य पार्वत्याः च पौत्रः रामदेवः मम मातामहः जानकी मम मातामही अहं रामदेवस्य जानक्याः च दौहित्रः रामदेवस्य जनक्याः च दौहित्रः माधवः रामदेवस्य जानक्याः च जामाता मालती माव मा, महादेवस्य पार्वत्याः च स्नुषा माधवः रामदेव जान रामदेवस्य जानक्याः जामाता <coughs> इत्युक्ते तत्र मालती स्नुषा डाक्ट्रिम्ल हा अत्र रामदेव मम मातामह जानकी मम मातामही अहं रामदेवजानक्याः च दौहित्रः रामदेवजानक्याः च दौहित्रः तत्र पश्यतु दौहित्रः इत्युक्ते दुहिता दुहिता इत्युक्ते पुत्री मालती इति दुहिता रामदेवस्य जानक्याः मालतीति दुहिता अतः रोहनः कः रामदेवस्य जानक्याः दौहित्रः हा डाक्टर्स् सन् सम्यक् डाक्टर्स् सन् इति हा तत्र प्रादेशिकभाषासु अहं मन्ये तत्र भेदः न दृश्यते तत्र mm. पितामहः मातामह पितामही मातामही तत्र अस्ति परन्तु अनन्तरं भेदः न दृश्यते दौहित्रः पौत्रः तत्र डाटर् ग्रेण्ड् ग्राण्ड् चिल्ड्रन् एव वयं वदामः खलु प्रादेशिकभाषां hmm. ah. तत् नास्ति खलु ah. परन्तु अत्र भेदः अस्ति दौहित्रः oh. दुहिता दुहिता इत्युक्ते कन्या okay. hmm. oh. uh, पौत्र इति पुत्रस्य पुत्रः पौत्रः इति महादेवस्य पार्वत्यः पौत्रः परन्तु आ, रामदेव जानकी द्वयोः द्वौहित्रः इति सः वदति अस्तु तत्र एकवारम् अस्य अपि पठनं भवेत् सम्बन्धवाचकशब्दान् अस्तु सम्यक् भगिनी राधा भगिनी धन्यवाद धन्यवादः अग्रिमे अजयन्ती भगिनी पठति वा सम्बन्धवाचकशब्दान् पठामि सम्बन्धवाचकशब्दान् पठतु शब्दः पितामहः ऐ मीन् शब्दः अर्थः रिलेशन्शिप् एक्स्प्लैन्ड् इन् इङ्ग्लिश् पितामहः फादर्स् फादर् पितामही फादर्स् मदर् मातामहः मदर्स् फादर् मातामही मदर्स् मदर् जनकः आर् पिता फादर् जननी आर् माता मदर् पुत्रः सन् पुत्री डाटर् सहोदरः ब्रदर् सहोदरीन् अग्रजा एल्डर् अग्रज अग्रजः एल्डर् ब्रदर् अग्रजा एल्डर् सिस्टर् अनुजः एङ्गर् ब्रदर् अनुजा एङ्गर् सिस्टर् जामाता सन् इन्ला स्मिषा डाटर् इन्ला पौत्रः ग्राण्ड्सन् that means son's son son pau tree mm. grand granddaughter son's mm. uh, daughter then mm. dauhitra grandson daughter's son um, mm. dauhitri granddaughter daughter's daughter mm. uh, patihi husband hmm uh, shrush uh, uh, swasurah uh, sushrah sorry uh, patni or barya wife Uh, hmm. था hmm. अत्र पश्यन्तु पौत्रः पौत्री दौहित्रः दौहित्रौहित्र दौ... दौहित्रि अदानीं भवती तत् अत्रापि hmm. वाक्यानि uh, सन्ति तत्र अहं रोहनः तथैव hmm. स्वस्य विषये वाक्यरचना करोति वा स्वस्य नाम अनन्तरं पितामहः मातामहः सर्वेषां नामानि स्वीकृत्य वदति वा आम् अहं जयन्ती मम पिता मम दुरैसामी मम पिता नाहलक्ष्मी मम माता अहं दुरैसामिनस्य नाहलक्ष्म्याः च पुत्री अहम् अहं आ, लक्ष्मी लक्ष्मीयाः मम मातामह नाम अपि रामः एव रा, रामः भगिनी अहं मालि मालिन्याः राजेशस्य च अग्रजः सारी अहं मम एकः एव भ्रातुः अस्ति जन्तिभगिनी एवं कुर्मः तत्र प्रथम तु मातामहः मातामही पितामहः पितामही तत् वदतु अस्तु मम मम पितामहः पितामहः लक्ष्मणः मम पितामही चल्लम्माल् मम मातामहः राम रामः मम मातामही नल्लम्माल् अन अनन्तरम् अग्रजः अनुजः अग्रजा अनुजा वदति अग्रजा अग्रजः अग्रजा नास्ति अनु अनुजः अस्ति मम अनुजः सरवण सरवणः इदानीं वदतु भवत्याः भवती कस्य कस्य दौहित्री अहम् अहं रामस्य नल्लम्मा नल्लमालस्य च नल्लमा नल्लम्मायाः इति नल्लम्मायाः दौहित्री अहम् अहं लक्ष्मणस्य चेल्लम्मालाया चेल्लम्मालयाः पौत्री पौत्री पौत्रि सम्यक् तदेव उत् उत्तमम् उत्तमं धन्यवादः भवत्याः जामाता वा सुषा अस्ति चेत् तेषां नामानि नास्ति बेनि इदा इदानीम् अस्तु अस्तु वैद्य शीघ्रतया भवन्ति इति शीघ्रतया भविष्यति इति चिन्तयामः भवत्याः आशीर्वादं मम सदीक्षा अस्तु उत्तमं अस्तु हा धन्यवादः इदानीं तत्र इतोपि तत्र श्वशुरः पर्यन्तं हा जयन्ती भगिनी श्वशुरस्य नाम अपि पति पत्युः नाम अपि मम पत्युः नाम विजयन् मम श्वशुरः नाम वीरास्वामी मम अन्य स्वशु मम श्वशुः नाम दवमणि मम मातुलस्य मातुलस्य नामः नारायणः भवती भवती कस्य स्नुषा तदपि वदतु स्नुषा अस्य स्नुषा अहं वीरासाम्या वीरासां स्वामिनस्य श्वशुः अहं वीरास्वामी दवमन्याः च स्नुषा हा अत्र अहं वीरास्वामे इति भवति वीरास्वाम्यीरास्वामे दवमन्याः दवमन्याः च स्नुषा स्नुषा उत्तममस्ति उत्तमम् अस्ति धन्यवादः अग्रिमे श्यामला भगिनी पठति वा श्वश्रूः इति अस्ति तत् पठति वा तत् आरभ्य मम स्वसुः मम स्वसुः नास्ति श्वश्रू Uh, भगिनी तत् श्वश्रुः मदर् इन् ला तत् पठतु श्वश्रूः मदर् इन् ला मातुल तत् दृश्यते खलु स्क्रीन् दृश्यते तदेव अहं पठति वा भगिनी हा हा पठतु, पठतु श्वशुः मदर् इन् ला मातुलः मातु मातुः भ्राता मातु मेटर्नल् अङ्कल् मदर्स् ब्रदर् मातुलानि वैफ् आफ् मेटर्नल् अङ्कल् बहिन्येयः सिस्टर्स् सन् बहिन्यैः सिस्टर्स् डाटर् भ्रातुजः ब्रदर्स् सन् और् नितुजा ब्रदर्स् डाटर् और् नीफ् भ्रातुजाया सिस्टर् इन्ला ब्रदर्स् वैफ् देवरः हस्बेण्ड्स् यङ्गा ब्रदर् देव देवरपत्नी हस्बेण्ड्स् यङ्गा ब्रदर् वैफ् ननान्धा sister in law husband's sister pitravya pitru bhata father's brother pitruya father's brother's wife pitru bagini pitruhu bahini bhada sister or maternal paternal aunt pitru swaja father's sister hmm agree me nanaanda sister in law husband's sister pitruyah pitruhu bhrata phadas brother pitruyah mm -hmm. phadas wife mm -hmm. pitru bahini pitruhu bahini father's sister or paternal aunt pitrush mm -hmm. swasa father's sister swasa bagini sister avrutah sisters husband or brother in law shalah brother in law wife brothers bratjaya brothers wife mm -hmm. mitra snehi friend saki friend female mm -hmm. prati prpitamah paternal mm -hmm. great grandfather prpitamahi paternal great grandmother mm -hmm. pramatamah maternal great grandfather तत्र एकं एतत्तु वयं कृतवन्तः पौत्रपौत्री दोहित्र पितामह पितामही तत्तु अभवत् एतत्तु तस्य उत्तरमपि अत्र अस्ति इदानीम् एकं कुर्मः हा धन्यवादः श्यामला भगिनी धन्यवादः वीणा भगिनी धन्यवादः हा धन्यवादः वीणाभगिनी वीणा अत्र वयं किं कुर्मः सर्वाणि नामानि तु सन्ति अत्र श्वश्रूः मातुलह, तत् कुरुकुलं स्वीकृत्य इत्युक्ते पाण्डवाः अनन्तरं कौरवाः पाण्डवाः अनन्तरं तेषां पितामहः प्रपिताम इति चिन्तनं कुर्मः श्वश्रूः इति अहम् आरम्भं करोमि तत्र श्वश्रुः द्रौपद्याः श्वश्रुः का तथा तस्मात् आरम्भं कुर्मः वदतु हा वद हा द्रौपद्याः श्वशुरः पाण्डुः श्वशुरः सम्यक् श्वशुरः फादरिन् लव् पाण्डवः श्वश्रुः uh, द्रौपद्य द्रौपद्याः स्वसु तुछु, स्वस्रूः कुन्ती सम्यक् कुन्ती सम्यक् भो अनन्तरं दुर्योधनस्य मातुलः कः हा दुर्योधनस्य मातुलः शकुनी शकुनी सम्यक् हा इदानीम् अभिमन्योः अभिमन्योः मातुलानि का अभिमन्योः मातुलः कः अभिमन्योः मातुलः श्रीकृष्णः उत्तमम् अभिमन्योः मातुलानि कामन्यो मातुलानि मातुलानि अह रुक्मिणीत अस्तु श्री एकनिमिषं ओके वसुदेवस्य वसुदेवस्य भगिनेयः कः वासुदेवस्य भगिनी वसुदेवस्य वासुदेवस्यदेवस्य भगिनी कुन्ति आम् ओके वसुदेवस्य भगिनी कुङ् अह युधिष्ठिरः पञ्चपाण्डवाः उत्तमम् उत्तमं सर्वे भगिनेयाः वसुदेवस्य भगिनेयाः सर्वे पाण्डव भगिनेयाः भगिनेया अस्तु भगिनी भगिनेयाः अस्तु इदानीं भवती अपि चिन्तयतु सिस्टर् उत्तर उत्तर उत्तरकुमारी अपि अस्ति भगिनि हा तत्र उत्तरा इति अभिमन्योः पत्नी अहं किं पृच्छामि शकुनेः शकुनेः शकुनि शकुनेः भगिनेका इति पृच्छन् शकुनेः भगिनेः शकुनेः भगिनिका शकुनेः भगिनिका गान्धारी वा सम्यक् गान्धारेः पुत्री एकमस्ति परन्तु तद् दुश्शिला इति अस्ति दुशिलायां जयन्द्रथः एषः सूर्यः एषः जयन्द्रथः सः सूर्यः इति अस्ति खलु सः जयन्द्रथः दुश्शिलायाः पति जयद्रथः दुश्शिला जयद्र इति शकुनेः भगिनी इति अभिमन्युः अभिमन्युः कस्य भ्रातृजः भीमस्य सत्यं भीमस्य युधिष्ठिरस्य नकुलस्य नवदेवस्य भ्रातृजः भा, सम्यक् दुशिला दुशीला, दुशीला कस्य भा भ्रातृजा पाण्डोः उत्तमं भगिनी पाण्डोः भ्रातृजा दुशिला भ्रातृजां भ्रातृजाया द्रौपदी कस्य भ्रातृजाया भ्रातृजाय तत् यदा तत् तावत् चिन्तनं भवेत् तत् दुर्योधनस्य पुस्तक सर्वेषां गौरवाणां सा भ्रातृजाया एव खलु इदानीं यङ्गर् ब्रदर् सः देवः कस्य देवरः द्रौपद्याः देवरः सत्यं सत्यं सत्यं इदानीम् ऊर्मिला कस्य देवरपत्नी इति पत्नी स्मरति वा लक्ष्मणस्य पत्नी अतः रामस्य देवरपत्नी हा रामस्य देवरपत्नी हस्बण्ड् देवर सत्यं न हस्बण्ड्स् यङ्गर् ब्रदर्स् अस्तु भगिनी यस्य सत्यम् अस्तु इदानीं ननन् ननान्दाम् अत्र अहं पृच्छामि ननान्दा तत्रक्याः जानक्याः इत्युक्ते सीतायाः इति वदामः सीतायाः ननान्दा का आसीत् आसीत् आसीत् वा रामस्य रामस्य तत्र नामना, शान्ता नाम्ना दशरथस्य पुत्री आसीत् शान्तारा तत्र पुराणे शान्ता राम इति एकं नाम तत्र जनाः वदन्ति तत् पश्यन्तु राधाकृष्णः अस्ति वा जानकीराघव इति अस्ति राम इति अस्ति परन्तु ब्रदर् सिस्टर् युनैटेड् नेम् अहमेव शान्तारामः वास्तविकरूपेण सा दशरथस्य पुत्री परन्तु mm -hmm. तस्याः पालनं आ, तत्र लोमपाद तत्र लोमपाद इति नाम्ना तत्र लोमपादनाम्ना एक एकः नृपः आसीत् तस्याः ah. पालनं तेन कृतमस्ति तत्र अयोध्यायां सा न तत्र अयोध्यायां स न निवसति स्म तत्र लोमपाद तत् लोमपाद समीपे सा लोमपाद एव तां पालितवान् इति अस्ति अस्तु तत् फादर्स् ब्रदर् इति अस्ति तदपि भवती वक्तुं शक्नोति फादर्स् ब्रदर् पितृभ्यः पितृभ्यः लक्ष्मण लवकुशस्य पितृव्यः लक्ष्मणः सम्यक् तथैव अत्रापि लवकुशस्य लवकुशस्य पितृव्या ऊर्मिला उर्मिला तत्र जानकी उर्मिला माण्डवी श्रुतिकीर्ति इति सर्वे तत्र चत्वा चतस्रः कन्याः तत्र जनकस्य एव इत्युक्ते जनकस्य कन्या अनन्तरं जनकस्य भ्रातुः कन्या तत् सर्वे मिथिलानगरीतः तेषाम् एव तत्र विवाहसम्पन्नः इति अस्तु mm -hmm. yeah. yeah. yeah. yeah. mm -hmm. तत् पर्याप्तम् इति तत् अवगतम खलु अनन्तरं yes, फादर् सिस्टर् स्वसा इति सिस्टर आवृत्तः इति आवृत्तः इति किञ्चित् भिन्न सिस्टर्स् हस्बेण्ड् तत्र अहं आङ्ग्लभाषायां तत् शाला इति वयं वदामः खलु सिस्टर्स् हिन्दीभाषायां शाला इति हिन्दीभाषायां तत् तत्र सिस्टर्स् हस्बेण्ड् वैफ्स् ब्रदर् श्यालः क्षम्यतां तत्र सिस्टर्स् हस्बेण्ड् ओहोहो अत्र भेदः वर्तते क्षम्यताम् तत्र ब्रदर् इन् ला ब्रदर् इन् ला एवम् अस्ति परन्तु अत्र संस्कृतभाषायां तत् श्यालः इति वैफ्स् ब्रदर् सिस्टर्स् हस्बेण्ड् इति डिफ़्रेण्ट् तत् आवृत्तः तत्र आङ्ग्लभाषायां हिन्दीभाषायां तत् समानः एव अस्ति अस्तु भतृजाया अनन्तरम् अनन्तरं फेण्ड् इति अस्ति मित्रं सखि प्रपितामह पितामहः इत्युक्ते ग्रेण्ड् फादर् तत्र ग्रेट् ग्रेण्ड् फादर् भवति प्रपितामह परन्तु तत् पेटर्नल् सैड् हा पितामहः पितामही प्रपितामहः प्रपितामही अत्र मेटर्नल् सैड् किमस्ति मातामहः ग्रेण्ड् फादर् from mother's side, and then great-grandfather, Pravmata Maho. Great-grandmother, maternal great-grandmother, Pravmata Mahi. Pravmata Mahi. That's what I mean. Uh, That's what I mean. Pand That's what I mean. Pandavanam, Pravpita Maho, Pravpita Mahi Vaktum Shaknutiva. Pandavanam. <laughs> <laughs> <laughs> Pandavanam. तत्र पांडु अनन्तरं तत्र कुन्ती इति पाण्डु कुन्ती अनन्तर पांडु तत्र अम्बा अम्बा अम्बिलिका अम्बाम्बा अम्बलिका अम्बा अम्बिका अम्बिलिका तत्तु पितामही भवति पाण्डवानां सम्यक् खलु न पितामही भवति अनन्तरं व्यासमुनेः हा व्यासमुनेः माता सत्यवती सा प्रपितामही सत्यवती पाण्डवानां प्रपितामही सत्यवती इति सम्यक् खलु अस्तु भगिनि अनन्तरं तत् अस्तु भवतु नाम अस्तु तत् इदानीं तत् अभवत् अस्माकं एकवारम् एका कथा अद्यदिने वयं पठिष्यामः तत्र विषयः अस्ति किमर्थं सा पठनीया अग्रिमे अग्रिमे सप्ताहे वयं तत् गीतासोपानस्य आरम्भं कुर्मः तदा किञ्चित् पूर्वपीठिकारूपेण तद् तत भविष्यति तत् किमर्थं गीता पठनीया इति विषयः पर अस्ति परस्मात् प्राक् आदौ अहम् अपि श्रोतुमिच्छामि भवन्तः सर्वे वदन्तु अद्य अस्माकं प्रथमस्तरस्य अन्तिमः दिन अन्तिमं दिनमस्ति वदन्तु के के जनाः वक्तुमिच्छन्ति आह्वयामि वा अस्तु भगिनि हा वदतु शीघ्रं शिवरं राधाभगिनी वदति वा जयन्तीभगिनी वदति वा अहं प्रेषितवती खलु अस्माकं वर्गाः विषये वा भगिनी वर्गस्य विषये तत् प्रथमं स्तर प्रथमः स्तरः इति अद्य स्तरः अस्तु प्रथमत प्रथमं भवत्याः कृते ऐ मीन् मम कोटिकोटिप्रणाम बेनि यद्यपि संस्कृतं जानामि तथापि संस्कृतसम्भाषणं सम्यक् न कर्तुं शक्यते इदानीं mm. 90% पर्सेण्ट् मन्ये सुलभतया mm. <laughs> अहं mm. संस्कृतं वक्तुम् अपि शक्यते श्लोकायाम् अर्थ अवगमनम् अवगमनम् अपि अवगच्छन्ति अतिसुलभतया mm. किमपि mm. प्रयत्नं बिना भवती पाठितवती तदेव भवत्याः करुणाकारुण्यम् इति अहं मन्ये <laughs> <laughs> अस्माकं सर्वे भाग्य भाग्यवन्तः ऐ मीन् भाग्यवती अहमस्मि सर्वे अपि मन्ये इदानीं वयम् गीताप्रवेशा अनुप्रवेशामः तदपि सम्यक् भवितुम् भविष्यति इति भगवन्तं प्रार्थना कृष्णभगवान् एव अहं प्रार्थना करोमि प्रार्थना उत्तम सम्यक् इति भगवान् अस्माकं कृते कृपा भवतु भगवन् भवतः कृपा अस्माकं कृते भवि भवनीयम् इति मह मम इच्छा प्रयतनम् उत्तमं किमपि धन्यवादः कोटिकोटिप्रणामं भवत्याः कृते अस्माकं धन्यवादः अन्य कोऽपि वदति वा भगिनी सो ऐोट् सो ऐ कम्पो मम कृते भाषितसंस्कृतप्रथामस्तरवर्गाः सरस्वतीप्रसाद अभवन् आच आचार्या बहुपण्डिता क्षान्ता च अस्ति मम कृते न एव सरलम् अस्ति परन्तु गतवर्षस्य अपेक्षया निश्चयेन निश्चयेन अहम् mm -hmm. अधिकं शिक्षितवान् उत्तमम् उत्तमम् केवलव्याकरणस्य अपेक्षया mm -hmm. भा, भाषितसंस्कृतम् mm -hmm. अधिकं रमणीयम् अस्ति वा उत्तमं गतवर्षस्य अपेक्षया mm -hmm. मम अवगमनं निघण्टं संस्कृतपरिचयः च अधिकमस्ति अधिकमस्ति परन्तु <स्तित> एते सर्वे उन्नति कर्तुम् अर्हन्ति भारतीयसंस्कृतिः विषये मम परिचयः उदितः अपि आसीत् तत् ततः नैके धन्यवादाः आचार्य नीता भगिनीजी सः उद्योगिनः च उत्तमम् उत्तमं महोदय उत्तमम् उत्तमं बहु उत्तम, धन्यवादः अस्तु अन्यकोपि भारतमहोदय अमेकापतिमहोदय हा वदतु वदतु भगिनी वदतु भवत्याः वर, वर्गे सम्यक् अस्ति बहु बहु धन्यवादः भगिनि मम संस्कृतभाषा ज्ञा न्या, ज्ञानं ज्ञानं स बहु बहुविधानि भवन्ति I used to wait for the class to attend every week. Even though mm -hmm. if I miss the class, I would like to attend. I would like to attend. I would like to attend. I would like to attend. I would like to attend. सम्यक् अस्ति भगि भगिनी भवती कोटिकोटिनमस्काराः सम्भाषणं कर्तुम् इच्छामि सरलः इच्छामि परन्तु सरलः भा भाषा सरलः बहुकालं वयं पठामः परन्तु भाषणं न सरलः एव भवद्भिः satya va that's the only the problem even though we learn a lot we are unable to interact <laughs> we have to learn more and more sanskrit hum <laughs> <laughs> saraswati devi prarthanam karoti karanam ah satkrit basa bapu bapu ीम् आराधयामि धन्यवादाः अस्तु भगिनी धन्यवादः भगिनी अम्बिकापतिमहोदय भारतमहोदय वदति वा आम् अहं वदामि भगिनि गतवर्षे कक्षायाम् आरम्भे अहं संस्कृतं भाषा पठितुं बोधितुम् अपि वक्तुं शक्ष्यामि इति मम इच्छा आसीत् इदानीम् mm -hmm. अहं लघुकथायां पठितुं अवगच्छामि mm -hmm. लघुवाक्ये अपि वक्तुं शक्नोति mm -hmm. तेन मम बहवः आनन्द आसीत् uh, uh, भवत्या कृते प्रणाम uh, तस्य uh, uh, कक्षायाः अहं uh, uh, uh, बहु uh, आनन्देन आगतव आगतवती mm -hmm. uh, गीतासोपानस्य पठनेन सम्भाषणेन अपि uh, अधिकं uh, सुलभेन कर्तुं शक्ष्यामि इति मम प्रार्थना अस्ति अस्तु तत् वीणा भगिनी वदतिवा वा वीणा भारत भारतमहोदय वक्तुम् इच्छति चेत् वदन्तु भारतमहोदय भारतमहोदयः तु बहु सम्यक्रीत्या अत्र अध्ययनं कृतवान् आसीत् इतोपि सः निश्चयेन करिष्यति भारतमहोदय वदति वा अहं वद संस्कृतभाषा जानामि इच्छामि ज्ञातुम् इच्छामि ीट् देट् ज्ञातुम् इच्छामि ज्ञातुम् इच्छामि मम उद्देशः गीता श्लोकं श्लोकं पठ पठामि जानामि ज्ञानामि जानामि uh um this <laughs> uh um uh, um and and it to um, make some sentences <laughs> mm -hmm. doesn't matter you can speak yeah. in uh, in angre bhasha aapko I'd like to say thank you uh, at least uh. i started something and uh, slowly by slowly uh, when i get a time opportunity you know i try to study it and now uh, uh, but the way uh, the amount of time i need to put is i am not able to put so but hopefully uh, i'll catch up a little bit more and uh, um, you know that my aim is to learn a little bit more every day and now amit as flo yes डेफिनेट्लि तत् तस्मादेव अहम् अत्र वक्तुमिच्छामि अस्माकं गीतासोपान् प्रथमः भागः गीतासोपानं प्रथमः भागं तत्र किमस्ति व्याकरण अंशाः ये ये सन्ति पश्यन्तु गीतायाः तत्र श्लोकाः तु सन्ति श्लोकानां भाषान्तरणमपि भिन्नासु भाषासु तत्र वर्तते परन्तु अस्माभिः श्लोकस्य अवगमनार्थं किं करणीयम् इति एकैकं व्याकरणं व्याकरण अंशम् यत् अस्ति तत् स्वीकृतं तस्य स्वीकरणं भवेत् अनन्तरं तेषाम् आधारीकृत्य एव श्लोकस्य अवगमनम् इति तत् भिन्नप्रकारेण अति उत्तममस्ति पुस्तकं तत् भिन्नप्रकारेण अस्माकम् अध्ययनं प्रचलिष्यति इति अस्ति इदानीं पूर्वपीठिकायाः दृष्ट्या एका कथा अत्र तस्य चयनं कृतवती आसम् तत् वयं पठिष्यामः अत्र कथा एव अस्ति तत्र एकनिमिषं पठनम् आरम्भं कुर्मः दृश्यते वा स्क्रीन् दृश्यते न दृश्यते इदानीम् इदानीं दृश्यते अस्तु विना भगिनी भवती आरम्भं करोति वा पठति वा भगिनी गीतापाठनं न व्यर्थं पर्वतस्य तत्र अस्ति उपत्यकायाम् उपत्यकायां तत्र उपत्य उपत्यकाया उपत्यका इत्युक्ते बाटम् आफ् दि मौण्टन् इति अस्तु भगिनी पर्वतस्य उपत्यकायां पौत्रेण सह कश्चन वृद्धः निवसा निवसन् निवसति स्म निवसति निवसति स्म तत्र कश्चन वृद्धः स्टेयिङ्ग् एट् द बोटम् आफ् द मौण्टेन् एट् दूट् आफ़् द मौण्टेन् इति पौत्रेण सह अत्र पौत्र इत्युक्ते पौत्र वृद्ध अत्र अनिताभगिन्याः ध्वनिः श्रुतवती अनिताभगिनी अस्ति वा नमस्कार नमस्कार नमस्कार नमो नमः नमो नमः <laughs> परीक्षितः ध्वनिः अस्तु <laughs> हा पठतु विना भगिनी अग्रिमे पठ प्रतिदिनं प्रातः ौद्धम् उद्धावीघ्रम् उत्थाय उत्थाद उत्थाय उत्थ्याद भगिनी द्रोषः तत्र उत्थाय उत्थाय भगवद्गीतापठनं तस्य स्वभावः hmm. uh, पितामहस्य पिता पिता पितामहस्य व्यवहारं दृश् द्रष्टव्य द्रष्टव दृष्टवता hmm. पौत्रेण चिन्तितं यत् मया अपि पितामहेन इव hmm. भवितव्यम् इति hmm. अत्र किम् अभवत् पितामहः किं करोति तत्र प्रतिदिने प्रतिदिने प्रतिदिनं गीतापठनं करोति तस्य अनुकरणं केन कृतं तत्र पौत्रः अस्ति सः अपि चिन्तितवान् अहमपि तथैव करोमि करोमि हा अतः सः अतः सः पितामहत्यैव अनुकरणं Uh, mm. भगवद्गीतापठनमपि आरब्धं तेन mm. बहुधा पठनेन अपि गीताश्लोकानाम् अर्थः तेन न अवगतः इम्पार्टेण्ट् पठनेन अवगमनं न अभवत् अव न भवत् तत्र काठिन्यं तु वर्तते एव केवलं तत्र पठनं भवेत् तत् अर्थ अवगमनं न भवति तथैव अभवत् पौत्रं तथैव पौत्रः तथैव अनुभूतवान् हा सः पितामहम् अवदत् पठ सः पितामहम् अवदत् पितामहः भवान् इव अहमपि गीताम् पठामि hmm. पठन पाटनस, पठनसमये किञ्चित् ज्ञातम् इव भवति किन्तु hmm. पुस्तकं यदा पिहितं भवेत् तदा hmm. सर्वं विस्मय विस्मर्यते विश्... विस्मर् <Eleven> विस्मर्यते <Eleven> विस्मर्यते विस्मर्यते <Eleven> सः अवदत् सः अवदत् सः सः सः आ सः पट पठसि परन्तु किञ्चिदपि न अवगतं हा परन्तु सर्वं विस्मरति पठति पठनस्य समये सः अनुभवति हा हा एतत् अस्ति एतत् अस्ति किञ्चित् ज्ञानं भवति परन्तु यदा पुस्तकं पिहितम् आफ्टर् क्लोसिङ्ग् द बुक् सर्वं विस्मरामि mm -hmm. इति सः वदति mm -hmm. अतः तस्य अतः प्रश्नः गीतापाठनात् कः लाभः मम अहं mm -hmm. गीतापठनं परित्यक् परित्यक् इच्छामि सर्वेषां <laughs> तथैव भवति तत्र आकलनं न भवति अनन्तरं तत्र किञ्चिदपि तत्र आलस्य भावना अपि आगच्छति अनन्तरं लाभ लाभदृष्ट्या चिन्तयामः चेत् यस्य प्राप्ति भवेत् तस्य प्राप्तिः भवेत् तदपि न भवति कः लाभः मम अहं तु त्यजामि गीतापठनं त्यजामि गीतापठनं परित्यक्तुम् इच्छामि इति सः उक्तवान् कम् उक्तवान् पितामहम् उक्तवान् अस्तु सर्वेषां मनसि कदा कदा एषः प्रश्नः आगच्छति एव तथैव पौत्रम् पृच्छति पौत्रः पृच्छति इति पौत्रस्य मनसि अपि तथैव आगच्छति अस्तु धन्यवादः वीणाभगिनी धन्यवादः अग्रिमे पितामहेन उत्तरं किमपि न उक्तं तदा आरभ्य अम्बिकापतिमहोदय भवान् पठति वा अम्बिकापतिमहोदय पठति वा पितामहेन उत्तरं किमपि न उक्तम् सः औत्रम् अवदत् एकं खण्डोत्नं नदीतः नदीतः जलम् आनय तत्र कण्डोलम् इत्युक्ते तत्र किं वदामि आङ्ग्लभाषायां फ्लवर् बास्केट् टैप् आफ़् बेस्केट् आमां बास्केट् टैप् टोक्रि इति अस्ति खलु हिन्दीभाषायां टोक्रि इति बास्केट् टैप् आफ़् थिङ्ग् कण्डोलं नित्वा नदीतः जलम् आनय तत्र कण्डोलं स्वीकरोतु नदीतः जलम् आनयतु इति सः उक्तवान् गत्वा कण्डोले जलं, sort of जलं, जलं प्रपूर्य गृहं प्रति स्थितः हि रिटर्न् वि वाटर् इन् दास्केट् किन्तु किन्तु यावत् गृहं प्राप्तं तव तावता कण्डोले अल्पमपि जलं न आसीत् द वास् नो वाटर् in the by mm -hmm. the time he back tada tada uh, pibamaha pidamaha abavat mm -hmm. tava tava um, veghaha aparyan aparyaptaha mm -hmm. aparyapta insufficient is no, finish to yeah. mm -hmm. uh from uh, mandamaya कार्यं करो करोषि वेगेन कुरु कार्यं सत्यम् अनन्तरं किम् अभवत् पौत्रकण्डोलजलं पूर्व प्रपूर्य वेगेन एव गृहम् आगतवान् तदापि कण्डोलेन जलं न शिष्टं न शिष्टम् इत्युक्ते न अवशिष्टम् इति जलं नास्ति कण्डोले वेगेन सह गतवान् परन्तु तदापि जलं न अवशिष्टं तस्य कण्डोले अवशिष्टम् अवशिष्टम् अवशिष्टं सः पितामहः अवदत् सो इदन् इद सैड् कण्डोलेन जलस्य आनय आनयनं न शक्यं सो यु कान् ब्रिङ्क् द बास्केट् अतः अहं पात्रेण जलं इन्स्टेड् आफ् बास्केट् ऐ विल् टेक्ट् अहं पात्रेण जलम् आनेष्यामि ऐ विल् बिङ्ग् पात्रे पोट् पोट् बिगर् पाट् मे बि अर्बन् पाट् और् मेटालिक् पाट् तावत् कण्डोलेन न शक्यम् इति सः उक्तम् तदा पितामहः किं वदति न कंडोलेन एव जलं जलम् आनय आनयव्यं स्वयमस्नेतव्यं ब्रिङ्ग् ओन्लि इन् द बास्केट् तदर्थं पुनः प्रयासे कुरु ट्रै सत्यं कंडोलेन एव आनेतव्यं तव्यय कर्तव्यं गन्तव्यम् तत् आनेतव्यं कण्डोलेन एव प्रयासं कुरु इतोपि अधिकं प्रयासं कुरु इति सः उक्तवान् वेगेन गच्छतु इति पितामह कण्डोलेन एव आनेतव्यम् इति सः उक्तवान् अस्तु तावत्पर्यन्तं धन्यवादः अम्बिकापतिमहोदय धन्यवादः अग्रिमे तत् राधाभगिनी भवती पठति वा तत्र तदर्थं पुनः प्रयास प्रयासं कुरु असुकृत् प्रयासं कुरु इति अवदत् पितामहः प्रयासं कुरु ओके okay. पौत्रेण अनेकवारं प्रयासः कृतः तदापि साफल्यं न प्राप्तम् अन्ते सः असन्तोषेण अवदत् आर्य मया बहुधा प्रयासः तु कृतः एव तदापि कण्डोलेन जलम् आनेतुं न शक्तम् सर्वः अपि प्रयासः विफलः विफले कार्यं किमर्तम मां नियोज नियोजयति भवान् पौत्रेण बहुवारं कण्डोलेन जलम् आनी आनय प्रयासं कृतवान् परन्तु असफलम असफलं सफलं, सफलं न भवत् भवति तदनन्तरं ते आ, वदतु प्र, प्रयासम् अहं कुर्मः परन्तु न शक्यं किम किमपि विफलं प्र कार्यम् किमर्थं करिष्यामि इति उत्तमं तत्र सफलः विफलः सफलः फलेन सह विफलः फल नास्ति तत्र तत्र विफल विफले कार्ये किमर्थं नियोजयति भवान् तत्र किमपि न साध साधितुं शक्नोमि किमर्थमहं करोमि अग्रिमे पठतु तदा पितामहः यदा पितामहः अवदत् यं व्यर्थः प्रयासः त्वया जलम् आनेतुं न शक्तम् इति तु सत्यम् कदापि hmm. प्रयासः न व्यर्थः कण्डोलं परिक्षस्व किञ्चित् ah. uh, uh, न huh. mm. uh, no, पितामहः अवदत् uh, प्रयासः व्यर्थः नास्ति uh, mm -hmm. भवान् जलं न कण्डोलेन जलम् आनयितुं न शक्यम इति uh, सत्यमस्ति तदापि uh, प्रयासं व्यर्थनास्ति अत्र बोधी बोधितुम् इच्छति कः बोधः तत् अग्रिमे आगच्छति अस्माकं कृते अपि बहुवारं तावत् भवति बहुवारं वयं श्लोकं पठामः अनन्तरं तस्य अवगमनार्थमपि भाषान्तररूपेण कुत्रापि अत्र एतत् पुस्तकम् अस्ति तत् पश्यामः एवं वेब्सैट् उपरि अपि तत्र भाषान्तररूपेण तत्र तज्ञैः तत् लिखितमस्ति तदपि वयं पठामः परन्तु सम्यक्रीत्या बहुवारम् एतद् भवति सम्यक्रीत्या अवगमनं न भवति एस्पेशलि ऐम् टाकिङ्ग् अबौट् तत् द्वितीयः अध्यायः अनन्तरं पञ्चमः षष्ठ अध्यायः तत्र अवगमनं क्लेशकारक एव भवति बहुवारं uh, oh, mm. वयं चिन्तयामः किमर्थम् अहं तत् प्रयासः करोमि तत् न आवश्यकमेव व्यर्थमेव तत् प्रयत्नं किमपि न uh, तस्मात् किमपि न अहं प्राप्नोमि mm. किमपि न लभ्यते इति तथा चिन्तनं मा कुरु एवं त्वं कण्डोलं परीक्षस्व किञ्चित् ततः आरभ्य पितामहः किमपि अतीवमहत्त्वपूर्णः इति अस्ति बोधः कण्डोलं परीक्षस्व किञ्चित् सः वदति कण्डोलस्य परीक्षणं करोतु एकवारम् तेन किं भवति अग्रिमे रमणी भगिनी पठति वा राधा भगिनी धन्यवादः धन्यवादः धन्यवादः रमणी भगिनी पठति हां आं भगिनी पौत्रः कण्डोलं परीक्षितवान् पूर्वं यः कण्डोलः मलिनः आसीत् सः इदानीं स्वच्छः दृश्यते अन्तः बहिः च शोभते सः किम् पौत्रः कण्डोलितं कण्डोलं परेषितवान् कण्डोलः अन्धः बहिः च स्वच्छः स्वच्छः अभवत् निर्मलः दृश्यते अन्तः बहिः च शोभते पूर्वे शौबते। पूर्वे कथम् पूर्वे मलिनम् माली आसीत् निर्मलः मल मलम् अपगच्छति मलः नास्ति तत्र इदानीं मलिनः न आसीत् इति अग्रिमे अग्रिमे आश्चर्येण कण्डोलमेव पश्यन्तं पौत्रम् अभवत् पितामहः पूर्वं यः कण्डोलः मलिनः आसीत् सः इदानीं शः दृश्यते सः पितामहम् अवदत् पूर्वं यः पूर्वं कण्डोलः बहु मलिनम् आसीत् इदानीं कण्डोलः स्वच्छः अस्ति इति जलस्य आनयनं कर्तुं न शक्नुं चेत् अपि कण्डोलस्य स्वच्छता तु सिद्धा कण्डोलेन mm -hmm. जल जलम् आनयितुं न शक्नोति किन्तु कण्डोलः स्वच्छदा भवति कण्डोलस्य मलिनं मलिनता अपगच्छति इति कण्डोलस्य मलिनता अपगच्छति स्वच्छता सिद्धा एव गीतायाः पठनं पठनम् अपि एवमेव पठनावसरे पठनावसरे गीतायाः सर्वेषां श्लोकानाम् अर्थः न अवगम्यते गीतायाः पठनमपि कण्डोलस्य कण्डोलेन जलम् यथा कण्डोलेन जलम् आनेतुं न शक्तवान् तथैव तत्र व्यर्थता भवति तथैव बहुवारं श्लोकानाम् अर्थबोधनं न भवति अतः मनसि तत् विचारः आगच्छति व्यर्थः एव अहं करोमि यत् कार्यम् अहं करोमि तत् व्यर्थमेव भवति एतादृशः विचारः मनसि आगच्छति पठन् शीघ्रं शीघ्रं गीतायाः पठनं न भवति हा शीघ्रतया अर्थ अवगमनं न भवति पठने अपि विषयकनियमाः सन्ति तत्रापि क्लेशः भवति तत्र समासः अस्ति अवगमनं कदा न भवति किं दत्तमस्ति तत्र इति भवति अर्थः न अवगम्यते अनन्तरं केचन श्लोकार्थाः विस्मृताः भवेयुः अपि हा बहुवारं तद्भवति अद्य दिने कण्ठस्थीकरणं करोति करोमि द्वितीयदिने किमपि न स्मरामि विस्मृताः श्लोकार्थाः श्लोकान् श्लोकान् श्लोकार्थाः तु विस्मृताः परन्तु कदा कदा श्लोकमपि सम्यक्तया स्मरणं न भवति बहुवारम् एतद् भवति तथापि तावत्पर्यन्तं हा योग्यं तथापि योग्य धन्यवादः रमणी भगिनी तथापि तथा आरभ्य जयनी भगिनी पठतु तथापि पठतुं तथा एकनिमिषं भगिनि कुत्र भवति बेी तत्र हुँ, केचन श्लोकार्थाः अविस्मृताः भवेयुः अपि तावत्पर्यन्तं रमणीभगिनी पठितवती तथापि गीतापठनाभ्यासः अस्तु बेनि तथापि गीतापठनाभ्यासः न परित्यक्तव्यः यत् स्मरणं भवेत् न विस्मृत विस्मृतं भवति चेदपि mm. गीता गीतापठनस्य कार्यं न त्यक्तव्यम् इति mm. ततः अन्तर् अन्तरङ्गबहिरङ्ग अङ्गयोः शुद्धिः mm. तु अवश्यं भवति mm. गीतापठनार्थ पठनस्य किं लाभः अन्धः अपि भवति अस्माकं बहिः अपि शुद्धः भवति बहिः इत्युक्ते शरीरम् और् मानसिकमपि अन्तरङ्गमपि शुद्धं भवति इति गच्छता कालेन गीतायाः तात्पर्यस्य अवगमनात् तु जीव जीवनोत्कर्षः सिद्ध्येत् इति गच्छता क्रमेण कालेन क्रमेण गीता पठितुं पठितुम् आगताः या ये ये आगता तस्य uh, hmm. uh, गीतायाः पठनस्य तात्पर्यं किम् इत्युक्ते अवगमनात् अर्ध अवगमनात् तु जीव uh, um, जीवन, जीवन उत्कर्षः इति uh, उत्कर्षण सिद्ध्यति इति सिद्ध्यति hmm. इति तस्य hmm. तात्पर्यं भवति जीवनस्य hmm. uh, अस्माकम् आत्म आत्मनस्य उन्नतिः भवति इति hmm. महत्वपूर्ण भागः अत्र पश्यन्तु जीवनोत्कर्षः जीवनस्य उत्कर्षः तत्र उद्धारः इति गतिः अस्ति तत्र अस्तु अद्य मम जीवनस्य उद्धारम् अभवत् एवं कदा अपि वयं वक्तुं न शक्नुमः तत्र लैफ् लाङ्ग् इति अस्ति खलु उत्कर्ष उद्धारः जीवनोत्कर्षः सिद्धेत् गच्छता कालेन गच्छता कालेन अस्तु पञ्चवर्षानन्तरं मम जीवनस्य उत्कर्षं भवेत् न एवं तत्र क्रमेण एव तथैव संस्कृत अध्ययनम् अस्ति संस्कृतभाषायाः प्रगल्पया स्तरवर्धन तथैव भवति क्रमेण क्रमेण अस्तु अहं तत् कोर्स् कृतवती तत् मम स्तरवर्धनं भव अभवत् एवं तत् क्रमेण भवति पालनं अनुचरामः चेत् उद्धरणं भवति जीवनस्य उद्धरणं नूतनम् अर्थम् अवगतवान् इव पौत्रः पितामहस्य मुखमेव निर्निमेषम् अपश्यत् इदानीं पौत्रस्य अवगमनार्थं नूतनतया अर्थम् अवगतम् इति पितामहस्य मुखमेव सः अपश्यत् वितौट् ऐ मीन् वितौट् अनिमेष अन्निमेषम् अन्निमिषं कृत्वा पितामहस्य मुखमेव सः पश्यति विदौट् तत्र न्यू मीनिङ्ग् मीनिङ्ग् न्यू मीनिङ्ग् आफ़् लैफ् गच्छता कालेन भवति उत्कर्षः इन्स्टण्ट् रिसल्ट् नास्ति तत्र क्राश् कोर्स् इति नास्ति एवं खलु गीता भगवद्गीता लैफ् टैम् पारायणं सोपानम् एव सोपानम् इति वक्तुं उत्तम उत्तमनामः गीता सोपानम् इति उत्तमनाम एव अस्माकं सनातनधर्मस्य एकसोपानम् अस्ति भगवद्गीता तृतीयसोपानम् hmm. आसीत् खलु बेनि उद् उपनिषत् ब्रह्मसूत्रम् hmm. एकः सोपानमस्ति भगवद्गीता भगवद्गीतमसोपान <laughs> hmm. एव अतः सूपनिषत् सुपनिषत् hmm. सुगीता एवमस्ति खलु तत्र उपनिषदा ah, साररूपेण गीता आगच्छति अस्तु अत्र पौत्रः अपि अस्ति पितामहः अपि अस्ति कुटुम्बसम्बन्धीनि शब्दानि व्याक्वाक्यानि अपि अस्ति अनन्तरं ते शब्दाः सन्ति अनन्तरं गीतायाः किमर्थं पठनं तत् अग्रिमे वर्गे साक्षात् पठनस्य आरम्भं वयं कुर्मः कथा उत्तमकथा भवती स्वीकृतवती धन्यवादाः <laughs> अस्तु समयः पीड्यवादः धन्यवादः वक्तुमिच्छति वा एकथा करोतु भगिनी अस्माकं गृहे वक्तुमिच्छति वा अनिता भगिनी भवती वक्तुमिच्छति वा अन्तिमे बहुदिनानन्तरं भवती अत्र आगतवती धन्यवादः कथमस्ति भगिनि स्वास्थ्यम् कथमस्ति भवत्याः अस्तु अम्बिकापतिमहोदय भवान् समापयति वा शान्तिमन्त्रं oh, वदति वा ओम् पूर्णमधपूर्णमिदम् पूर्णा पूर्णमुदच्छदे पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यदे ॐ शान्ति शान्तिशान्तिः हरिः ओं तत्सद् श्रीगुरुभ्यो नमः हरिः ओं धन्यवादः